कीर्तितानि न संशयः यदक्षरपदभ्रष्टम् मात्राहीनम् तु यद्भवेत् तत्सर्वम् क्षम्यताम् पदपादाक्षराणि च न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तमा निर्जित्यवादसमये ऋषे सर्वानुपस्थितान् रावो येन हृतास्तस्मै नमास्त्वब्रह्मराजये अधातोऽधीत्याधीत्या निराकरणम् प्रतीकम् मे विचक्षणम् जिह्वा मे मधुयग्वचः कर्णाभ्याम्भोरिशुश्रुमे मा त्वग्रहार्ये श्रुतम् मयि ब्रह्मणः प्रवचनमसि ब्रह्मणः प्रतिष्ठानमसि ब्रह्मकोशोऽसि सनिरसि निराकरणमसि ब्रह्मकोशम् मे विशा वाचा त्वा विदधामि वाचा त्वाविदधामि तिष्ठ प्रतिष्ठा स्वरकरणकण्ठौ रसदन्त्यौष्ठग्रहणधारणोच्चारणशक्त्यर्मयि भवतु आप्यायम् त्वमेऽङ्गानि वाक् प्राणश्चक्षुश्रोत्र यन्मे श्रुतमधीयम् तन्मे मनसितिष्ठतु तिष्ठतु तिष्ठतु ओ, ओ।